यम् पन्था अनो वित्तः पुराणो यतो देवाभुतजाहायन्त विश्वेः अतश्चिदाजनिभेष्टप्रवृद्धो मा मातराममुयापत्तवेगः नाहमतो विराजा दुर्गहैतीरश्च दाहापाश्वान्निर्गमाणि भूमि मे अग्रेदा कर्त्वा नियुद्ध्यैत्वेन सन्द्वे न वृच्छै म् मातरमन्व च न्यनुगामानि सुष्ठुर्गृहे अपि भत्स ममिन्वः स्वत धन्यम् शम्भोः सुतस्य किं सरधकृनभ्यम् सहस्रम् मासो जभान शरदश्च पूर्वीः न हीन्वस्य प्रजमानजातेषु गजे जनित्वा अपद्यमेव मन्यमाना गुहाः करीन्द्रम् माता वीर्येनान् नृष्टम् अतोदस्तात् सुम्बसा नारोदसी अपृणाजायमानः एता अर्षञ्चललाभवन्व सङ्क्रोशमानाः एता विभृच्छविदम्भनन्दिकमापो अद्रिम् परिधिम् रोचन्ति किं श्विरस्मै निविदाभनन्ते पद्यम् दीदिशन् तावाह ममैतान् पुत्रो माहतावधेन वृत्तम् जन्वाद्विसिन्धून् मम चरत्वा युवतिः परा सममच्छत्वा गुरवा जहारिदावश्युषा मे मम्यर्म वच्चिदङ्गस्य हसोदतिष्ठत् घपन्यम् सोनि विद्वाम्बपहनोः जघानविधौतरो बभूवा दासस्य सम्पे नग्बधेन दृष्टिः सो वस्तवीरम् दागामाना धृषम् ऋषभन्तुम् रवीन्द्रम् अनीम् वत्सम् चरथाय माता स्वयम् गातुम् दण्च्छमानम् उत मातामहिमम्ब वेन दधीत्वा जगति पुत्रदेवाः अथ ब्रवीद्वृत्रमिन्दो हनिष्याम् से विष्णापितरम् विक्रामस्व हस्ते मातरम् विधवादक्रस्त्वा जिघाम् सच्छरम् तम् कस्ते देवो अधीवा दीगत्यप्राक्षीणापितरम् पादगृह्य अवत्यासु न आन्त्राणि पेचेन देवेषु विविदे मर्भितारम् अवश्यम् जायामन हीयमानामधामे श्येनो मध्वाजभारेवरन्नो अपि वातयमनाः हरिः ओवामिन् नवज्रन्नत्र विश्वे देवासः सुभवासभूमाः महामुभेरोदश्रीवृद्धमृष्णम् निरेकमित्रेण ते वृक्षहत्ये वासृजन्तजिव्रयो न देवाभुवः सम्राणिन्द्र सत्ययोनिः अहन्नहिम्परिषजाः नवन्न प्रपत्तनीरारदो विश्वधेनाः अदृक्मन्तम् विजतमबुद्ध्यमु बुध्यमानम् सुषुपानमिन्द्र सप्त प्रतिप्रभत अपक्षोदयच्छव साक्षाम बुद्ध्यम् वार्णव तस्तवेषेऽभिरिन्द्राः समाः नवो जो बाभिनत्तकुभः पर्वतानाम् अभिप्रतर्दर्जनायो नगर्भ्रथाः जिवप्रजायः साकमद्राजः अरर्पयोजो विसृता बुब्जपूर्णीन् त्वम् वृताम् आविना इन्द्रसिन्धून् त्वम् मयिमवनिम् विश्वधेनाम् दुर्वीताय वैयायक्षरम् दीन् अरामजो नमसे चणस्तुतरणाम् आगृणादिन्द्रसिन्धून् प्राग्रुवो नभन्वो ओनभक्वाद्वश्रामिन्मध्यपदेः धन्वाङ्गद्राङ्गणत्रिषाणाङ्गोविन्द्रस्तर्यो ीरायिम् रस्रवीतवे पृथिव्या अम्रेः पुत्रभद्रुवोः अधानम् निवेशनाद्धरिभाज भ्र या अन्धो अख्यदही मादधानो निर्भो दुः कश्चित् समारम् तमर्वपूर्वा यथा यथा वृष्ण्याः निःस्वगोत्तापाहम्सिराजन्नल्यावी वेषीः श्रुतयुम् रणोग्रे दानयुषम् चरित्रे नद्योः अकालिरे हरिवो ब्रह्मणव्यम् धिया स्याह मरथ्यस्व दासाः आनयन्द्रो दूराधान आसादभिर्निकृ सेयासदुग्रह भोजिष्टेभर् से नृपधर्वज्रबाहः सङ्गे समत्सु दुर्वणिः प्रतन्यू आनयिन्द्रो हरिभिर्जा त्वचार्वाचीनो वासे राधासे चिष्ठादिभज्रीमघवाभिरप्सीमम् यज्ञमनो नो वाचसातौ इमम् जज्ञम् त्वमस्माकमिन्द्रपुरोदधत्समिष्यसि कृतम् नः स्वीव वज्रेम् सेधनाः नान्तयाः वजमर्य आजिम् जायेम उषन्नुषणः उचन सुमनाः बुपाके सोमस्य नु सुषूतस्य स्वधावः वायुन्द्रप्रतिभृतस्य मध्वस्व मन्दसाममतः यो न रक्तभिर्नवेभिर्वृक्षो न भक्वश्रुन्यो नयेताः मर्यो नयोमभिमन्य बालोच्छाः विवग्नि पुरुहोतमिन्द्रम् गिरिनयसुरावाः स देवसहसे जागुग्रः आलर्दाभद्रांस्तीरन्न भीमपुत्रे वको सम्वसूनाम् दृष्टम् यस्य वर्तजनुषान्वस्ति न राधसामलीतामघस्य मृद्वारुषानस्तविषेवग्रास्मभ्यम् दद्धि पुरुहूत राजः ये क्षये राजः क्षयस्य नर्षणीना मुद्रता ये क्षा नरः समिधेश प्रहवान्वस्वो राशिमभिनेतासि भूरिम् यादच्छे सच्चासजष्टो जनाः गृणो जिमुः काचिदृष्वः पुरुधासु जेवि जिष्टो ज्युष्टो अम्भोधाः दधादिद्रवीणम् चरित्रे मानो मधीलाभरा दद्धिन्नः प्रदासुषेदात वे भूरि यत्तेः नव्येः देष्णे सस्ते अस्मिन् तुक्ते प्रभ्रवामभयमिन् प्रस्तुवन्तः नोष्टुदयम् गणो ग्रीणानयिषम् चरित्रे नद्यो ओनपीपेः हर हरिते हरिव ब्रह्मणव्यम् धियास्याः इन्द्रो वसमुप न जिहस्तु धमातस्तु सूराः वावृधानस्तविषीर्यस्य पूर्वेर्यो नक्षत्रमभिभूति पुष्यात् तस्य जिहस्तवधवृष्ण्यानि तु विद्युम्नश्च विराधसोदृ यस्य क्रतुर्विदच्छो सम्राट् सा पात्रो अभ्यस्ति कृष्टीः आयात् विन्दोः दिवा पृथिव्या भक्षो स पुत्रा दुतभापुरीषात् स्वर्णराधवासेनो भरुत्वान्वरावतोः वासदानाधृतस्य सूरस्य राजो बृहतो जयी शेतपुष्टवाम विदधेष्विन्द्रम् यो वायुनाजय दिगोमादेशप्रधृष्णानज जा दिवस्योमच्छ उभयो नमो नमाशिस्तभाजन्नियत्तिवाजम् जनजन्निदध्यै विञ्जसा रः तु दुवाराैरेन्द्रम् कण्वेदसदानेषु होताः धिषा यदी धिषण्यन्तः सरण्याम् समम् अद्रीमौषिजस्य गोहे आधुरोस्य होतायो नो महान् सम्भरनेषु वह्निः अत्रायतीम्बार्भरस्य वृष्टस्य शक्तिसुष्मस्तुपते भराय गुहायतीमौषिजस्य गोहे प्रयद्धिजे प्राजासेमताय र्वतस्य बृन्वेर्जिन्वे अवां जवांसि वियद्गौरस्य गभयस्य गोहे यजीवाजाहाय शुद्ध्यो वहन्ति भद्रादेहस्ता सुपाणि प्रयन्ताराहस्तु पते राधा इन्द्र देनिषत् दिव्यमुरोमा वत्सि किन्नो दु दुहर्षवेदा तावु एवावस्व इन्द्रः सत्यः सम्राड्ढन्ता भृत्रम्बरीवः पूरवे एकः पुरुष्टुतः क्रत्वा ोऽष्टुतयिम् ना रनुग्रे नानयिषम् चरित्रे नद्यो ओनपीपेः कारिते हरिवा ब्रह्मणव्यम् ध्याह वरथ्यः स दासाः चन्द्रेन्द्रो जुजुषे यमष्टितम् घवासोपमुक्तायो अस्मानम् समासा बिभ्रदेति च दूरश्रिमस्य मुग्रो बाहुभ्याम् नृत वसतीवान् श्रिये परुष्णे मृधमानपूर्णात्पर्वा निसख्याय विद्मे यो देवो देवतमोजाय मानो महोमाजयर्महद्भिश्च सुष्मैः तथा नो वज्रम् बाह्वो रुसन्तम् व्यामनेरजयप्रभूम विश्वारोधांसि प्रभतश्च पूर्वे द्यौ विश्वाजीमन्ज रक्षाः भरादिषुष्ण्यागोर्नृहत्परिज्वन्नोऽनुबन्तवादाः तादूद इन्द्रमहतो महानिविश्वेष्वित्सवनेषु प्रवाच्याः यच्छूरधृष्णो धृषदादधृष्वा न हिंवद्रे दशसा विवेशीः तादूजे सत्यादो विलम् गमिष्वा प्रधे नवशि अतः हतृमनोऽजाना प्रसिन्ध भोजपसा चक्रमन्त अत्राहे हरिवस्ताबू देवीरवोभिरिन्द्रस्तवन्तस्वसाहारः यच्छेमन प्रमजो बद्धाना दीर्घामनप्रसीदम् चन्दयध्यै विपीले सर्वो नीसमानस्य शक्तिः अस्मद्धृक्सुसु जानस्य यम्या आसुरस्मिन् दिव्योजसङ्गोः अस्मै वर्षिष्टा गृणहि ज्येष्ठाः शृम्नानि सत्रासहुरे सहांसि अस्मभ्यम् वृत्रा सुवनाः निरन्दिजहिमधर्वस्य अस्माकमिच्छर्न हि त्वमिन्द्रास्मभ्यम् चित्राणि अस्मभ्यम् विश्वाः जिष नः पुरम् धीरमाघम् सुमाघवन् बोधि गोदाः नूष्टुतयिन्यिषम् दरिद्रे रज्जो न दीपेः हरिवो ब्रह्मणव्यम् धिया ृधक्कस्य हो दुर्जज्ञम् जोषाणो अभिसो मूधाः जिबन्धुमानो अन्धो वक्ष विश्वस्सु च को अस्य वीरस्य धमादम् सो अस्य तदस्य चित्रम् चेकदूते हृदये भूवक्षसमानस्य यज्जोः ृणोति होजमानन्दः कथा शृण्मस्य वेद का अस्य पूर्वीरु मातयोः कथेन मा हूरिम् चरित्रे कथा समाधः समानो अस्य न सभि द्रविशन्ति ध्यानः देवोः वर्णवे नाम रता नाम् तथा गतस्य उदतो मत्तस्य सख्यम् ज्योजोष कथागधस्य सख्यम् सखिभ्यो ये अस्मिन् कामम् सुयुजम् ततस्रे किमादमत्रम् सख्यम् सखिभ्यः कदा नुजे भ्रात्रम् रभ्र भाव श्रीसुदृशोपूरस्य सर्गा स्वाचित्र ञ्जिम् सन्धरसा मणिन्द्राम् वैरिक्त्यसे अनीकात्र निर्णयान भुग्रो दूरे अज्ञातावबाधे हि सुरृधः सन्ति भूमे रजस्य धीर्वे जनानि हन्ति ऋषस्य श्लोको बधिराज दत्तकर्णा बुधा आयोः ऋतस्य दृढाधरुणा निन्द्रा बभूषे बभूंषि ऋतेन दीर्घमेषवृक्ष ऋतेन गाप ऋतृपादस्तु दृष्पस्तु गजाय पृथ्वी बहुरेगभीरे धृताय धेनोपरमे दुहाते यिषम् दरिद्रे नद्यो ओनपीपेः कारिते हरिवा ब्रह्मणव्यम् धियास्यामरथ्यस्व दासाः कालुष्टुनिस्सव सोऽनमिन्द्रमर्वाचीनम् राधावर्तते ीरोसू निषगोपर्यम् निश्चिधानम् नो जनासः सवृत्रहत्येहव्यस्व सुष्ठु सजिङ्गः सत्यराधाः स यामन्नामघवात्याय ब्रह्मण्यते सुष्ठरीबोधा विक्वाजम् देशमेखे रीरिक्वाम् सस्तन्वक्रण्व तत्रा यत्यागमोहनाः सो अग्भन्नरस्तोकस्य तन यस्य साधौ क्रतोयम् दीक्षितयो योगामुद्रा दुषा नासो वा विशो अन्न सादौ संयद्विशो वा वृत्तन्त युध्मा आदिन्येम इन्द्रियन्ते अभिगे आदिर्धनेम इन्द्रियम् यजन्त आदिपत्निः पूर्वसम् आदित्सोमो विवारिच्छादुष्वेनादिज्यो दोषवृषभङ्गजध्यैस्मैवरि भोजिच्छेन्द्रायसोम मुसते सुनोति सद्यमित्सखायम् कृणुते समत्सु य इन्द्रायसुमत्सोम मध्यपदात्पत्निरुतभृज्जातिधानाः निहर्यन्तस्मिन्नमिन्द्राः यदा समर्यम् यदृ वा दीर्घम् यदा अधिक्रम्पन्यच्छाः दुरो न वसुद्भिः भूयसावर्कणीयो विक्रीयो अकानिषम् पुनर्यन् भुजसाकनी यो नारीरे दीनादक्षाविदोहम् यत्रपालम् न जीवम् दशभिर्ममेन्द्रम् क्रीणाति धेनुभिः यजा भृत्राणिजङ्घ न दधैरीरम् मे पुनर्ददत् न श्रुतयिम् रनु क्रीणानयिषम् जत्रे नद्यो जय हरिभो ब्रह्मणव्यम् विजास्याः ओमजो देवकाः भूषन्नेन्द्रम् जो देवका जोष ओ वा देवार्जाः यश मिथे अग्नौ सुतरो मयी ते ओ ना सोम्याय नाजुर्वा भवति वस्तुस्राः कलिङ्गस्य युद्धङ्गः सभिङ्गभूते को देवानामो अत्या विहायः ज्योतिरीप्ते कस्याश्चि न इन्द्रा अर्ध श्रुतस्यां दोपे मन्दिमनसानम् तस्मा अग्रर्भार दशर्ममुच्चरन्दम् जीन्द्राय शुभभामेत्या हनरे नर्याहाय नृता मायघृणाम् नञ्जीनन्द्रि महबोल चन्द्रा उष्माह दे दशर्मा यम् सत् प्रियस्व त्रिय इन्द्र महाज प्रियस्वप्रावे प्रियोश्च ्य प्राजुदा वेदवीरः सुष्वे क्वन् दे के फलेन्द्रः नादुष्वे राम् न ना सखानजामिर्दुष्टाव्यो वहन् दे दवाहतः न श्रेमदा पणिरा सख्यमिन्द्रो सुन्वदातु सभाः सङ्गृह्णीते आस्य वेदक्षिण दिहन्ति नग्नम् विदुष्वजे भद्रजे इन्द्रम् परेव रेवध्यमा स इन्द्रम् जान्तो वा सिधा स इन्द्रम् इन्द्रम् जयन्तो वा जयन्तो भवन्ते अहम् मनोरभवन्त यस्वाहम् कक्षी वाहम् उत्सवाज् नेयम् जेहम् कविरुसना पश्य गामा अहं भूमि मददा जाहं जाहम् वृष्टिम् दासु हेमत्याः या अहमोहनयम् वासा न मम देवासोहनुकेत मायन् अहम् मुरोह मन्दसारो व्यै रम् नव साकन्न प्रति संवरस्य शततमम् सर्वदा दादिवोः दासमतिभितावम् ेन सेनेभ्य आशुपत्वाः अधक्रया यत् स्वधयासुपर्णो हव्यम् भरन्वण वेदेवजुष्टम् भरद्यदि विरतो वेबी जानोरुनामनोः जवासर्जि तूयम् ययो मधूना सोम्येनोतश्रवोः विविदेश्व अत्र जीवेश्येनो ददमानोऽ रावतश्च गुणो मन्त्रम् मदम् सोमम् भरद्दादृहाणो देवावान् दिवो अमुष्मादुत्तराधादाय आदाय श्येनो अभरत्सोमम् सहस्रम् समा अयुधम् च साकम् पुरम् धीरजहादनाः धीर्मदे सोमस्य मूरामुरः गर्भेण सन्नन्मे कामवेदमहम् देवानाम् जनीवाणि विश्वाः शरम् मापुराजशीरक्षन्मधस्येनो जवसा निरजीयम् न घात मामभयो ीर्वापुरम् निरजहालुराङ्गलरच्छोऽसु मानः अवयच्छेनो अस्म नेतोर्वि यद्यदिवदभोः पुरम् धिम् सृजस्मा अवहक्षिपद्याम् मृदालुरस्तावना साभुरण्डित्यजेमिन्दावतो न भुज्यम् श्येनो च भालबृहतो अधिष्णोः न्धः प्रदत्पदत्यस्य पन्नमधया वा निसीदस्य द्वेः अधः श्वेतम् कलसङ्गोभीरत्तमाः विध्यानम् मघवाः शुक्रबन्धाः विप्रजाताम् मध्वो अग्रमिन् रोमदाः जप्रति धग्निवध्ययो त्सोख्य इन्द्रो अपोमन वे सश्रुतस्कः अहं न हि वरीरासप्तसिन्धो न वा वृणोदभिदेवखाणि वायुराणि हि रत्सो येन्द्रश्चक्रम् गो विष्णुना बृहदा वर्तमानम् महो द्रु अप ीन्द्रो अदहदग्नि गोरादस्योन्मध्यम् नीलादभीकेः सुणे कृत्वा न जाता गुरुसहस्रा सर्वाणि बुधीत् विश्वस्मात्सीमधमा इन्द्रदस्योन्विषोदासीरकृणोरप्रशस्ताः युवन्त इन्द्रश्च सोमो आदर्द्रतमपि हि धान्यः सारिषसोक्षाश्चित्तदृता आनस्तुत उपवादे हरिभिर्मन्दसानः दिनस्ति दर्यः स व्याम् गोष्ठे भग्रणानः सच्चरा धाः आ हिमाया तिनर्यश्चमानस्तोत्रिरुपायज्ञम् स्वजो अभिर्मण्यमान सुश्वाने भर्मदृसम्भवीरैः श्रावयेतस्य कर्णा वा जगजै श्रावम् प्रतिशम् वन् जगद्यैः <laughs> उद्वा वृषानो राधसेतुभिष्मान्तरम् नयन्द्रस्वतीर्थ भयम् च अच्छायोगम् तानाधमानभूते सा विभ्रह्मानम् गृह्णन्तम् ज्राहुः गोदासोमघवन्निन्द्रवित्राः भयम् देहश्यामसूरयोः घृनन्ताः वेदानासोः बृहद्जीमचराया कार्यस्य दावनेः पुरुक्षोः न गीरेन्द्रो रज्यायाङ्गस्य पुत्रहन्न कीरे वाचा त्वम् सङ्क्राते अनुकृष्टयो विश्वाः चक्रे वावृदुः सक्रमहाङ्गाधिश्रुतः विश्वे जने धना त्वाह देवास इन्द्रयुयुधुः यानीरः यद् गौरवाधिकेभ्यश्चक्रम् कुत्सायुध्यते मुराजयिम् प्रसूयम् यत्र देवाङ्गृधयो विश्वाम् अयुध्यय कयित् वनोङ्ग्रहन् यत्रोदमत्या जगमरीनाजेन्द्रसूर्यम् राभसचीभिरेतसम् अत्राहदानुमातीरः एतद्धे दुतवीर्या अमिन्द्राचकर्तपौं स्त्रियम् जद्दुर्घनाय पम्बेतरम् दिवः दिवश्चिद्ध्यादितरम्नामिन्द्रम्पेन अभोषा अनासत्सरत्संविष्टादः विद्युषे नियत्स्रीम् श्मथदृशा एतदस्यानस्य जयसुसम्भृष्टम् विपास्य सारसी उत सिंहम् अधिक्षमि परिष्ठा इन्द्रमालयाः उत सुष्णस्य धृष्णया प्रवृक्ष अभिवेदनम् पुरायदस्य सम्विनक् उत दासङ्गो पर्वतादधि अवाहन्निन्दसम्भारम् उत दासस्य वर्चिनः सहस्राणि शतावधीः अधिपञ्च प्रदीयैव उदत्यम् पुत्रमग्निवत्परावृत्तम् सतक्रातु मुक्तेष्विङ्गत् उदत्त्या दुर्गसायतो अस्मादासजीपतीः इन्द्रो विद्वाङ्गयत् उदत्या सत्या रजाः सरयोरिन्द्रपारदाः अर्णा चित्ररथावधीः अरद्वाजहितानयोऽन्ध्रम् श्रोणम् च वृत्रहन् न दत्ते सुम्नमष्टवे शतमस्मन्मयीनाम् पुरामिन्द्रो व्यास्यत् दिवो दासाय दासुषेः अश्वापयदभि ये सहस्रांसदम् मतैः दादानामिन्द्रो मायगा स भे दुदासे वृत्रहांसमानयिन्द्रगोपादिः यस्त्राविश्वानिजिच्युषे उभनूनाञ्जलिन्द्रियङ्कारिष्टायिन्द्रपौंस्यम् अज्ञा न तिष्ठदामीतत् वामम् वा मन्तः दुरे देवो पूषा वामम् भगो वामम् देवः करो न चित्र आभूवदूते सदा वृधः सखाः कया स चिष्ठया मृता स्वाः सद्योमलाः नाम हृष्टो दृढादि दारुदेवसु अभीषस्वही नाम वितम् भावा स्यूतिभिः अभिनावृत्सक्रन्नभक्तमर्वतः ना। नामाः पदे भगच्छसि अभक्षिसोर्जयसताः स्माहि त्वा बाहुलिन् मघवाहम् सचीपते नाहारमपि दीर्घम् उत स्मा सद्यपरी समानाय संवतेचिम्ेवसु ते स नरा गोवरम् त आमुराः न न श्रोत्राणि करिष्यतः अस्मास्मान् सहस्रभूतजाः अस्मान् विश्वाः अभीष्टायः अस्मान् या वृणेष्वल्याय स्वस्तये महोराजे दिविद्मते अस्माङ्गि विश्वहेन्द्रराजावरीनसा अस्मान् विश्वाभिरुचिभिः अस्मभ्यन्ताम् अवाविधिजा नगो मातः अस्माकम् दृष्ट्या रतोऽद्यमाम् इन्द्राणावच्युतः गभिरश्वरीयते अस्माकमुत्तमम् कृधि श्रभोः देवेषु सूर्य वर्षिष्ठम् जामि वापरि आदून इन्द्रव्रत्रहन्नस्माकमर्धमागाहि महान्महीभिरुचिभिः सिद्धा तु दिलाचित्रचैत्रिणीष्वा जित्र चित्रम् क्रीणा श्रोदयेः लभ्रेभिच्छीयाम् सम्भम् संव्राधम् तमोजसा स हिभिर्ले त्वे स चाः वयमिन्द्रत्वे सजाः भयम् त्वाभिनो मा नमः अस्माभि स नश्चित्ताभिरद्रिवो न भज्याभिरूतिभिः अपणाः दृष्टाभिरागैः भूयामोषत्वावात सखा जयिन्द्रगोपातः युशोवाजा जगृष्वा ये त्वम् ह्ये कैशी शयिन्द्रवाच गोपादः स नो यन्धिमहे विषम् नत्वा अन्यथा यद्दित्साधि स्तु मघम्भ्य अभित्रागोतामा गिरानोषधप्रदापने इन्द्रमाजामधीरायामन्दसानूजः पुरोदासीरभीत्य राते गृह्णन्ति मेधसोजानि चकर्थपौंस्यागर्वणः अयीवृथम् दगोत मायिन्द्रत्वे सोमवाहसः अयिषु धावीरवद्यसाः यच्छिद्दिशीन्द्रसाधारणस्वाम् वायम् गा वामहे अर्वाचीनो वा शोभपास्मे सुमत्स्वान्धसः सोमाः नामिन्द्र सोमपाः अस्माकम् यच्छतु मा अर्वागाभक्तहरी पुरोरासम् च मोघसोः ज्योषयाः से गिरश्च नः वधूयुरीपयोष सहस्रम् यतीनाम् युक्तानामिन्द्रामीमहे शतरम्भाव सहस्राः ते सदा भयङ्गमसितु ते दे कलसानाम् गिरणाम धीमहि भूरिदाहासि वृत्रहङ्गूरिदा भूरि देहि रामा दभ्रम् भूर्या भरा भूरिहेजिम् रजित्ससि श्रुतः पूरुत्रासूरवृत्रहङ्गो भयस्व नसि पते बभ्रोऽपि चक्षण संसारि घोषणो नपात् माभ्याङ्गा नोश्रुतः कनीनकेव विद्रुधे न वे द्रुपदे अद्भरेभ्रूयामेषु शोभेते रं मम स्वजामे रमनुस्वजामे बभ्रोजामेश्वस्रुधा राद्रन्न अपि वादयमगाः ओ हरिः ओ ुपस्थिरे देवादूता सरणि देवे परिद्याम् सद्यो अपसोः बभूव यदा रमक्रन्भव पितृभ्याम् परिविष्टिभेषणाः दंसनाभिः आदिदेवानामुपसख्यमा जीराः स पुष्टिमा बहन्मनायै रजे चक्रः पितरायुवा नासारूपे वजननासयाना देवाजो विभ्वा रघुलिङ्गाभन्धो मधुत्सरसो नो वन्तु शय्यम् यत् संवत्स नृभोगामरक्ष यत् संवत्स नृभोपा अभिंसन् यत् संवत्समभरन्वासो अस्यास्ताभिस्तभिरमासुः ज्येष्ठा हमसाद्वागले धिगनीयान्द्रेन्द्रेण वामेत्याह अनिष्ठाः चतुरश्चरेष्टभवस्तत्ता न यद्वजो वः सत्य हि शक्नुरनु स्वधा नृभवो जग्मुदाम् विभ्राजमानाम् स्वष्टाः चतुरोदृश्वान् ोऽन्यदगो यस्यादिच्चेरणन् प्रभवः ससन्ताः सुयन्तसिन्धोन् धन्वन्वधीर्निन्नमापाः चक्रुः सुहृतम् प्रथेष्टाम् विश्वयुवम् विश्वरूपा ृभवो रयुण् स्वस्ताः ते रे शामजो षण्ड देवाभिधिकृतीवाना भुक्षावरुणः स विद्वाः ये हरि वेदजोक्दम् इन्द्राहाय चक्रस्व्वाहा ते राजस्पोशम् द्रवीणान्यस्मे धत्त ऋभवः क्षेमयम् सो न मेत्रादम् धर्म हृदेशान्तस्य सख्याय देवाः ते नूनवस्मे ऋभवो वसूः अस्मिन् सर्वमे दधाता भावा जयिन्द्रो द्रो वा यादीवो झिषणा देव्यन्नामदात्मीयम् संवदा अग्मदावः इदान्मा नो वा जतर्तुभिर्ववो मादयध्वम् सम्भो मदा अग्मदसं परम् धिः सुवीरावस्मे ो यज्ञविभवो गाय मामनुष्वत्प्रतिभो दधि द्वे रोणासोः अस्तु प्रभूत विश्वेः अग्र्योतमाः अभूदवो विधय त्वेन मिलान रोधाजुत्यार्भवो धे वो महि तृतीयं समदाय क्ष मो नोद्रवीनसो गृहाभित्ते नवस्वाय वध्वन् आनपादस्वसो यातनोपेहम् जगजम् मम सहूयमानाः सूरयोजस्य पादरत्रधा इन्द्रियामन्तः जोषा इन्द्रवरुणेन सोमम् सजोढाः पाहि गर्वणो वरुद्भिः अग्रे वाभिर्माभिः सजोषाज्ञास्पत्नीभिरत्रदाभिस्सजोषाः स जोरासादितेर्मादयध्वम् सजोषा सर्ववपर्व तेभिः सजोष सोऽव्ये नासमित्रा सजोष सिन्धुभिरेभिः ये अश्विनाजे बिलराजभूते अश्वा ये अम्सत्राजर्धग्रोदीवे भो नस्वभत्यानि चक्रुः ये गोमन्तम् वाजमन्तम् सुवीरम् रयिम् धत्तवसुमन्तम् पुरुक्षम् ते अग्रे पार्भवो मन्दसानास्मेधे च रातिम् गृणन्ति नाबा भूदनभो दीदृशानिः सस्तार्भवो यज्ञे अस्मिन् समिन्द्रे नमदम्भद्भिः सम्राजभित्तधेयागदेवाः यो भो